उवाच मकंडेय पुराण अध्याकेयवाच अहन्यहन सूनिम चकारा पयसा तथा गुप्त चोषण भानो जग्मुस् भानोस्यनवर्मनी कौतूहलविलोलाक्षैर्दृष्टा मुनिकुमारकैः दृष्ट्वां महिंसनगरां साम्भो निधिसरिद्वरां रथचक्रप्रवाणां ते पुनराश्रममागताः श्रमक्लान्तान्तरात्मानो महात्मानो वियो निजाः ज्ञानञ्च प्रगडीभूतम् तत्र तेषां प्रभावदः ऋषे शिष्यानुकम्पार्थं वददो धर्मनिश्चयं कृत्वा प्रदक्षिणं सर्वे चरणावभ्यवादयन् ऊचुश्च स्मरणाद्घोरान् मोक्षिदा स्मस्तया मुने आवासभक्ष्यवयसां त्वं नो दादापि गुरुः गर्भस्थानां मृदा मादा पित्रा नैवापि पालिताः त्वयानो नो दत्तं शिशवो येन रक्षिताः क्षिता वक्षत तेजास्त्वं कृमीणामिव शुष्यताम् गजखण्डां समुत्पाट्य कृतवान् दुःखरेच्छनम् कथं वर्धेयुरबलाहस्थान् द्रक्ष्याम्यहं कदा कदा भूमेर्द्रुमं प्राप्तान् द्रक्ष्ये वृक्षान्तरं धरं गदान। मे सहजा कान्दिः पांशुना नाशमेष्यदि येषां पक्षान्निलोद्धेन मत्समीपविचारिणाम् इति चिन्तयदा तादभवदाप्रतिपालिताः ते साम्प्रतं प्रवृद्धा स्मः प्रबुद्धाः करवाम तेषां श्रुत्वा संस्कारवत्स्फुटम् शिष्य पिवृत कारणं गिरह। श्रृंगिण कौतूलपूत्र रोमचप्रूद प्रवृत्ण विक्रिया परा। रूपस्य वचस तन्मे वक्तुमीहार्हद पक्षिण ऊचुः विपुलस्वानिधिख्यादप्रागासेन्मुनिसप्तमः तस्य पुत्रद्वयं जज्ञे सुकृषस्तुम्बुरुस्तथा सुकृषस्य वयं पुत्राश्चत्वारः संयदात्मनः तस्य हर्षेर्विनयाचारभक्तिनम्राः सदैव हि तपश्चरणशक्तस्य शास्यमानेन्द्रियस्य च यथाभिमतमस्माभिस्तदा तस्योपपादितं समित्पुष्पादिकं सर्वं यच्चैवाभ्यवहादिकं एवं तत्राध वसदां तस्यास्मा कञ्चकानने आजगाम जगाम भग्नपक्षो जरान्विदः आदाम्रनेत्रस्त्रस्तात्मा पक्षी भूत्वा सुरेश्वरः वोदारमानसं। जिज्ञासुस्तमृषिश्रेष्ठमस्मच्छापभवाय च पक्ष्युवाच द्विजेन्द्र मां क्षुदाविष्टं परित्रादुमिहार्हसि भक्षणार्थो महाभागगतिर्भवममातुला विन्ध्यस्य शिखरे तिष्ठन् पत्रि पत्रिपत्रेरितेन वै पदितोऽस्मि महाभागश्वसनेनाधिरंहसा सोऽहं मोहसमाविष्टो भूमौ सप्ताहमस्मृतिः स्थितस्तत्राष्टमेनाह्ना चेदनां प्राप्तवानहं प्राप्तचेदाः क्षुदाविष्ठो भवन्तं शरणं गतः भक्ष्यार्थो विगदानन्दो दूयमानेन चेतसा तत्कुरुष्वामलमते मत्राणायाचलां मतिं प्रयच्च भक्ष्यं विप्रर्षे प्राणयात्राक्षमं मम सयेव एवमुक्तः प्रोवाच मिन्द्रं पक्षिरूपिणं प्राणसन्धारणार्थाय दास्ये भक्ष्यं तवेप्सितम् इत्युक्त्वा पुनरप्येनमपृच्छत् सद्विजोत्तमः आहकस्तवार्थाय उपकल्प्यो भवेन्मया स चाह नरमांसेन तृप्तिर्भवति मे परा ऋषिरुवाच कौमारं ते व्यधिक्रान्तमतीतं यौवनञ्जते वयसः परिणामस्ते वर्तते नूनमण्डज यस्मिन्नराणां सर्वेषामशेषेच्छान्निवर्तते स कस्माद्वृद्धभावेऽपि सुनृशंसात्मको भवान् क्व मानुषस्य पिशिदं क्व वयश्चरमं तव सर्वदा दुष्टभावानां प्रशमो नोपपद्यते अथवा किं मयिते प्रयोजनम् प्रतिश्रुत्य सदा देयमिधि नो भावितं मनः इत्युत्युक्त्वा तं स विप्रेन्द्रस्तथेधिकृतनिश्चयः शीघ्रमस्मान् समाहूय गुणदोऽनुप्रशस्य च उवाचक्षुब्धहृदयो मुनिर्वाक्यं सुनिष्ठुरं विनया वनदान् सर्वान् भक्तियुक्तान् कृताञ्जलीन् कृदात्मानो द्विजश्रेष्ठा ऋणैर्युक्तामया सह जातं श्रेष्ठमपत्यं वो यूयं मम यथा द्विजाः गुरुः पूज्यो यदि मदो भवतां परमः पिता वाक्यम् निर्व्यलीकेन चेतसा तद्वाक्यसमकालञ्च प्रोक्तमस्माभिरादृतैः यद्वक्ष्यति भवांस्तद्वै कृतमेवावधार्यताम् ऋषिरुवाच मामेषशरणं प्राप्तो विहगः क्षुदृशान्वितः युष्मन्मांसेन येनास्य क्षणं तृप्तिर्भवेद वै तृष्णाक्षयञ्चरक्तेन तथा शीघ्रं विधीयतां ततो वयं प्रव्यधिधाप्रगम्भोद्भूतः साध्वसाः कष्टं कष्टमिति प्रोच्य नैदत्कुर्मेति चाब्रुवन् कथं परशरीरस्य हेतोर्देहं स्वकम्बुधः विनाशयेत्खादयेद्वा यथा ह्यात्मा तथा सुतः पितृदेवमनुष्याणां यान्युक्तानि ऋणानि वै तान्यपागुरुदे पुत्रो न तः तस्मान्नकरिष्यामो निचीर्णं यत्पुरातनैः जीवन्भद्राण्यवाप्नोति जीवन्पुण्यं करोति च मृतस्य देहनाश्यश्च धर्माद्युपरतिस्तथा आत्मानं सर्वतो रक्ष्यमाहुर्धर्मविदो जनाः युद्धं श्रुत्वा वचोऽस्माकं मुनिक्रोधादिवज्वलन् प्रोवाच पुनरप्यस्मान् निर्दहन्निवलोचनैः प्रतिज्ञादं वचो मह्यं यस्मान्नैदत्करिष्यथ तस्मान्मच्छापनिर्दग्धास्तिर्यज्ञोनौ प्रयास्यथ एवमुक्त्वा तदा सोऽस्मास्थं विहङ्गमधाब्रवीद अन्ध्येष्टिमात्मन कृत्वा शास्त्रतश्चौर्ध्वदेहिकम् भक्षयश्व मामत्रद्विजसत्तमा मामत्र मया देहमिहात्मनः एतावदेव विप्रस्य ब्राह्मणत्वं प्रचक्ष्यते यावत् पदकजात्यग्र्यस्वसत्यपरिपालनम् न यज्ञैर्दक्षिणावद्भिस्तत्पुण्यं प्राप्यते महत् कर्मणान्येन वा विप्रायर्यत्सत्यपरिपालनाद् इत्यर्षेर्वचनं श्रुत्वा सौन्दर्विस्मयनिर्भराः प्रत्युवाचमुनिं शक्रः पक्षिरूपधरस्तदा योगमास्थाय विप्रेन्द्र त्यजेदं स्वं कलेवरम् जीवज्जन्तुं हि विप्रेन्द्र न भक्ष्यामि कदाचन तस्मै तद्वचनं श्रुत्वा योगयुक्तो भवन्मुनिः तं तस्य निश्चयं ज्ञात्वा शक्रोऽप्याहस्वदेहभृत भोभो भो, भो विप्रेन्द्रबुद्ध्यस्व बुद्ध्या बोध्यं बुधात्मक मया यं ते अपराधकृतोनख तत्क्षमस्वमलमते का चेच्छाक्रियतां तव पालनात् सत्यवाक्यस्य प्रीतिर्मे परमात्वयि अद्य प्रभृदिते ज्ञानमैन्दं प्रादुर्भविष्यति तपस्यध तदा धर्मे न ते विघ्नो भविष्यति इत्युक्त्वा तु गदे शक्रे पिता कोपसमन्वितः प्रणम्य शिरसास्माभिरिदमुक्तो महामुनिः बिभ्यदां मरणात्तादत्वमस्माकं महामते क्षन्तुमर्हसि दीनानां जीवितप्रियदाहिनः त्वगस्तिमांसङ्खादे पूयशोणिदपूरिते कर्तव्यानरतिर्यत्र तत्रास्माकमियं रदिः महाभाग श्रूयता च महाग यहाम क्रोधादिशरवश प्रबलि प्रज्ञागारुक्त स्थूण परम महदितिमारोधम मंसशोणित नवद्वारं महायामं सर्वदस्नायुवेष्टितं नृपश्च पुरुषस्तत्र चेदनावानवस्थितः मन्त्रिणौ तस्य बुद्धिश्च मनश्चैव विरोधिनौ चेते ते वैरनाशाय तावुभावितरेतरम् नृपस्तों नाशम्छ विषह कामक्रोधस्तो मोह्यपु यृपस्थराण्या सदा सुस्तलश्चरात जाये से जातागो भव यतादु सर्वद्वारानि विवृतानि विवृता रागो नाम तदा शत्रु सर्वव्यापी महायाम पंचद्वार प्रवेश तस्यानुमार्गं विशदितद्वै घोरं रिपुत्रयम् प्रविशाधस वै तत्र द्वारैरिन्द्रियसंज्ञकैः रागशंश्लेषमायाधिमनसा मनसाच सहेतरैः इन्द्रियाणि मनश्चैव पश्ये कृत्वा द्वाराणि च वशे कृत्वा प्राकारं नाशयत्यथ मनस्तस्याश्रितं दृष्ट्वा बुद्धिर्नश्यति तत्क्षणाद् अमात्यरहितस्तत्र पौरवर्गोच्छितस्तथा क्षिपुभिर्लब्धविवरः सनृपो नाशमृच्छति एवं रागस्तथा मोहो लोभक्रोधस्तथैव च प्रवर्तन्ते दुरात्मानो मनुष्यस्मृतिनाशकाः रागात्तु लोभो क्रोधा लोभोऽभिजायते लोभाद् भवति सम्मोहसम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात् प्रणश्यति एवं प्रणष्टबुद्धीनां रागलोभानुवर्तिनां जीविते च स लोभानां प्रसादं कुरु सत्तम योऽयं शापो भगवदा दत्तः स न भवेत्तथा न तामसीं गतिं कष्टां व्रजे न तन्मिथ्या भविष्यति कदाचन वागनृदं प्राह यावदध्येदि पुत्रकाः दैवमत्र परं मन्ये पौरुषमनर्थकम् अकार्यं कारितो येन बलादहमचिन्तितम् यस्माच्च युष्माभिरहं प्रणिपत्यप्रसादितः तस्मात् तिर्यक्वमापन्नाः परं ज्ञानमवाप्स्यथ ज्ञानदर्शितमार्गाश्च निर्धोतक्लेशकल्मषाः मत्प्रसादा दस्सन्दिग्धाः परां सिद्धिमवाप्स्यथ एवं शक्तास्म भगवन्पित्रा दैववशात्पुरा ततःकालेन महदा योऽन्यन्तरमुपागताः जाताश्चरणमध्ये वै भवदा परिपालिताः वयमिद्धं द्विजश्रेष्ठखगत्वं खगत्वं नास्त्यसाविहसंसारे यो न दिष्टेन बाध्यते मार्कण्डेय उवाच इति तेषां वच श्रुत्वा शमीको प्रत्युवाचमहाभागसमीपस्थायिनो द्विजान् पूर्वमेव मया प्रोक्तं भवतां सन्निधाविधं सामान्यपक्षिणो नैदे केऽप्येते द्विजसत्तमाः ये युद्धेऽपि ततः तेनुज्ञादा तेनु ज्ञादामहात्मनां जग्मुशिखरिणां श्रेष्ठं विन्ध्यं द्रुमलतायुधं यावदध्यस्थितास्तस्मिन्नचले धर्मपक्षिणः तपःस्वाध्यायनिरताः समाधौ कृतनिश्चयाः इति मुनिवरलब्धसत्क्रियास्ते मुनितनया विहगत्वमभ्युपेदाः गिरिवरगहनेधिपुण्यतोये यदमनसो निवसन्ति विन्ध्यपृष्ठे इति श्रीमार्कण्डेयपुराणे विन्ध्यप्राप्तिर्नामत् ओ